गणानाम् त्वा गणपतिगम् भवामहे कविम् कवेनामुपमश्रवस्तमम् कभी ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्ततः न शृण्वन्नोतिभिश्रेदसादनम् ओम् महागणपतजय नमः प्रणोदेवे सरस्वती वाजयभर्वाजिने आनादिव बृहतः पर्वतादा सरस्वतीकशतागन्तु यज्ञम् हवन्दे वे चतुजुषाणाघृता चे शक्वान् नोवाचमुशते शृणोतु ॐ महासरस्वत्यै नमः ॐ श्रीगरभ्यो नमः हरिः ॐ जेत्वा वाजवस्थो वाजवस्थ देवो वस्वता प्रार्पयतु प्रार प्रा कर्मणताप्याजग्भमग्निजा देवभागमोर्जस्व देः पजस्व देः प्रजावतीरनमेवा अयक्ष्मा मावस्थेन देशतमाहषयुन्धो रुन्द्रस्य हेतिः परिभो यज्ञस्य घोषदसि प्रत्युष्टगुं रक्षः प्रत्युष्टा, प्रत्युष्टा अरातजः प्रेदमगाधिषणा बलिरच्छानुनागता स्वधजावितष्टात आवहन्ति गवजः पुरस्ताद्देवेभ्यो दुष्टमिह बर्हिरासदे देवानां परुषोत्तमसि मरुषवृद्धमसि देव बर्हिर्मात्मा जगपर्वते राध्यासमाच्छेत्तदेमारिषं देव बलिहलव सहस्रवलिशामि भजगं मृहे मृषौजास्सम्भृज देवास्थादिन्द्रस्य त्वा बाहुभ्यामुद्यच्छे गृहस्वदेहराम् युर्वन्तरिक्षमन्मिहि देवङ्गमसि शुंध्वं देविराज कर्मणे देवयज्याजय मातरिश्वन घर्म सिद्ध्यौरसे छौजसि विश्वधाया असि रमेण धां नादृगम्भस्वमाह्वारुवसोनां पवित्रमसि शतधारम्बसोनां पवित्रमसि सहस्रधारं हुतस्तो गो सा विश्वकर्मा सम्पृच्छ्यमृताबले रोर्मिणेर्मथु मत्तवा मन्द्राधनस्य सातजे सोमे नत्वा तनक्ष्मीन्द्राजि विष्णाहौजगम् रक्षस्व कर्मणे मां देवेभ्यश्चकेयं वेषाय त्वा प्रचष्टगं रक्षः प्रत्युष्टातयोधोरसिधोर्वथोर्वं तन्धोर्वतंन्धोर्वदितं धोर्वयं वयं धोर्वामस्त्वं देवानामसि सस्नितमं पप्रितमञ्जुष्टतमं बन्धितमं देवहोतमम हृदमसि ह वृद्धानन्द्रगुं हस्वमास्वामित्रस्य त्वा सुषा प्रेक्षे मा संमित्था मात्वा हितुं शशमुरुवादादेवस्यत्वा समितः दित्या स्तोपश्चेहाग्ने हृजगम् रक्षस्व देवो वः समितोत्मनात्वच्छद्रेण पवित्रेण वसौ सौर्यस्य रश्मिभिलापो देवेनग्रे भुवो अग्रे भुवोग्रधिमै यज्ञम् न गताग्रे यज्ञपतिम् सत्तलुष्मानिन्द्रो वृणेतमृद्रतो स्थाग्नरे भोजुष्टं प्रक्षान्येष ध्वेव्याय कर्मणे देव यज्ञाया अवधोथुं रक्षोऽवधोदा अराधयोगि प्रथित्वा पृथिवीवे त्वं वा नित्या विसर्जनं देववेदयत्वा गृह्णां यद्य शिवानस्पद्यस्य इदं देवेभ्यो हविजं सुशमिशमिश्वे शमावतोर्जमापद मध्युमद्वदतभजगुम् सङ्घातम् जयेष्मवरुषवृद्धमसि प्रतित्वा वरुषवृद्धं वेत्युपराबोधकुं रक्षः पराबोधा अराधयो रक्षसान्धा गोसि वायुर्वामिवास्सभिधाहिन्यवाणि प्रतिगृह्णातु अवचोदकं रक्षो वसोता अरातयोदित्या स्त्वगसि प्रदित्वा पृथिवेवे एवसकं प्रदित्वा दित्या स्थग्वे एत्तु प्रदित्वा दिवस्कं भनर्वे एत्तु घृषणासि पार्वते प्रदित्वा पर्वतर्वे एत्तु देवः सत्त्वा हस्ता मिधान्यवसि देवान् प्राणादत्वा पानादत्वा व्याना दत्वा वेधा मनुप्रसिद्धिमायुषेधान् देवो वः ब्रह्म यच्छापाग्नेमादञ्जकौ जादगं सेधादेधकं रक्षग्धा अरातराध्रुवशिरशिवेन्द्रगं हा रदृगं हा चान्द्रगं हसजातानस्मै यजमाना जपोह धस्यन्दरक्षन्द्रगं हा नृगं हापानन्दृगं हसजातानस्मै रजमाना जपोहथ धरुणमसि दिवं दृगं शोदृगं हश्रोद्रं मृगं हसजातानस्मै गजमाना जमर्यो हथर्मासि शोदृगं हजोणिन्दृगं हजान्दृगं हसजातानस्मै यजमाना जहर्यो हचितस्थप्रजामस्मै रजस्मै सजातानस्मै गजमाना जपर्यो ह भृगोणामङ्गिरसान्तपसादप्यध्वैर्यानि घर्मे कपाला अन्युपचिन्वन्ति वेधसः ष्णस्तान्यप्यभयन्द्रबायो विवञ्चता सम्भपाभि समापो अभ्यरग्मद समाशधजोरसेन सगम् रेव जगते धर्मसृजद्भमद्भ्यः परिप्रजातास्थमद्भ्यः पृच्छद्भन्दो यज्ञनेशो शिजोसि धर्मासि विश्वायुरुप्रसस्वोरुते जज्ञपदः प्रसतान् कुचं गृह्णेष्वान् दरितौरिता अराजयो देवस्त्वा सविताश्व भजतु वरिषिष्ठे अधिनाके धागम् रक्षस्व सम्ब्रह्मणावृच्छस्वै कथा ुरसि दक्षिणः सहस्रभृष्टिश्चततेजाषध्वास्ते मूलं माहिकं शिषमपहतो गच्छ स्थानं वर्षतु ते न देव गजन्ये भजं गच्छगोस्थानं वरिषतु तेद्यौर्मधानदेवसमितः परमस्यां परावतिषते नपाशैर्योऽस्मान् वेष्टयं स भजं विष्मस्तमतो ष्टयं यञ्च भजम् विष्मस्तमधो मामौ गरनुस्ते दिवम् परिगृह्णन्तु गागत्रे ण छन्दसा रुद्रास्त्वा परिगृह्णन्तु त्रेष्टभय न छन्दसा नित्या स्वापरिगृह्णन्तु जागत न छन्दसा देवस्य सविदस्तवै कर्म गृह्णन्ति वैधस ऋसनमश्चुर्वे च शिवस्वे चा चिपुरा क्रोरस्य विसृपो विरप्सिन्दायशिवेन्देरगन्धं नमसि स्वधा भ्यस्ता न्धे रासो अवदृश्य प्रत्युष्टगुं रक्षः प्रत्युष्टा अराधयोर्मस्तेजष्ठनिष्टपामि गोष्ठं निर्मृक्षं वाजनं वासपत्नसाहगुं सम्मार्जिवाचं ब्राह्मणं चक्षश्रोत्रं प्रजायमिर्मृक्षं वाजने वासपत्नसाहेगुं सौभाग्यन्तनो अग्नेरनौ नता भूत्वा सन्नह्ये सुकृतायकम् सुप्रजसस्त्वा वजगम् दिमा। अग्ने सपत्मदम्भनमदद्धा सोदराभ्यम् इमम् विश्यामि वरुणस्य वा शैयमवध्नेतु सभिता सुकेतः धातुश्च जोनौ सुकृतस्य लोके स्योनम् मे सह करोमि ुषा सम्प्रजया समग्नेपत्य सा पुनः सम्बध् ने समात्मा गच्छे समात्मादनुवाम महीनाम्बयोऽस्योषधे नागुम् रसस्तस्यते क्षीयमाणस्य निर्वपामिमहीनाम्बयोऽस्त्योषधे नागुम् रसोदब्धेन त्वा चक्षुषावेक्षु शुक्रमसि ज्योतिरसि ते ज्योति दे देवो वस्तुभितोत्पमात्वच्छिद्रेण पवित्रेण वसोऽसूल्यस्य रश्नुभ्य शुक्रम् वा शुक्रायाम् धां ने धाम्ने देवेभ्यो जुषे जजुषे गृह्णामि ज्योतिस्वाद्योतिषत्यस्वाद्यषाम् ने धाम्ने देवे भो जुषे जुषे गण्ठामि कृष्णो खरेष्ठो Svaha Vedirazhi Varehi Litva, Svaha Varehi Razi Suttva, Svaha Dimitva, Dharikshalitva Vritsvavu Vitva, Svadhavitavkha, Urbhava Varehi Shatva, Ujjavitavim Vicharavishna, Stokosyurna Amrata Sanda, ृणा निश्वासस्थम् देवे भो विश्वावसर्विश्वस्मादेशतो यजमानस्य परिचरिणजेडितस्य दक्षिणो यजमानस्य परिचरिणजेडितो मित्रावरुणौ त्वोत्तरतः परिधत्ताम् ध्रमेण धर्मणा यजमानस्य परिचरिण जीडितः सूर्यस्त्वा गुरस्थात्वा दुरस्यास्ति त्यान्मागमे ुमम् तटुम् समिथे मह्यग्ने बृहन्तमध्वरे विशो यन्त्रे स्थोपसो नागम् रुद्राणामादित्याम् सदसे दजुहोरुपधृधुवासि हृताचेनाम्ना प्रम्ना प्रे सदसे दैतासदन् स्मृतस्य पाहि पाहि यज्ञम् पाहि यज्ञपतिम् पाहि वा भवानासि विप्रथस्वा न्ययजष्टरिदम् नमः जुह्वेहज्ञ स्वाहायज देव यज्ञाया उपभृजेहि देवस्वा सविताह्यति देव यज्ञाया अग्नाविष्णो मावामवक्रमिशं विजिहा मासन्ता लोकं मे लोककृतौ प्रणतं विष्णोस्थानमसीत ृहद्धाहि <Sess> मादुश्चरिदासुचरिते <Sess> मा भजमखस्य शिरोसि संज्योतिषा ज्योतिरङ्गा वाजस्य मा माप्रसवेणो ग्राभेणोदग्रभीत् अथासपद्भागुम् इन्द्रो मे निग्राभेण धरागुम्भः ग्राभम् च निग्राहम् च ब्रह्म देव अविवृथम् अथा सपत्नानिन्द्राग्नि मेऽपि शोचे धान्यस्य सा वसुभ्यस्त्वा रुद्रेभ्यस्त्वादित्येभ्यस्त्वात्तकम् ऋहाणाभियम् गुमयः प्रजाय निमानिर्मृक्षमाप्यायन्धामापोषधयो मरुताम् विटलय स्थलिमम् गच्छ ततो नो मृष्टिमेलया आयुष्प अग्ने स्यायुर्मे वाहि चक्षुष्प अग्नेशु चक्षुर्मे वाहिध्रुपासिजम् परिचम् पर्यधत्था अग्ने देव पणिभिर्वीयमाणः तम् तदेतमनुजोषम्भरा विने देशत्वदपचेतजातै यज्ञस्य पाधमुपसमितम् यज्ञस्यावभागास्थेशा विहन्तः प्रस्तरेष्ठा भक्तिषदश्च देवादिमा माशमधिविश्वे पाहि माद्यः पाहि प्रसिद्धे पाहि दुरिष्ट्यै पाहि दुरध्मन्ये पाहि दुश्चरितादपिषन्नः पितुं कृणसुषदायो निग्रस्वाहा नसस्मद इमन्नो देवदेवेषु यज्ञ स्वाहा वाच स्वाहा वादेवामिन्द्राग्ने आहुवध्याघाराधसः था सहमानयध्यै उभागातानाम्शाकम् रजीणामुभावाजस्य सातजयुमेवाश्रमगुन्धिभो लिदावत्तराम् विजामातुरुदपाघा स्यालात् अथ सोमस्य प्रगति युवभ्यामिन्द्राग्ने स्तोमम् जनयामि नव्यम् इन्द्राग्ने नम्बुलो दासपत्नेरथोऽनुतम् सागमेकेन कर्मणा शुचिह्न उभाहि वागुम् सुभवाचोह मेमिता वाचगम् सद्यपुषतेष्ठा वयमुक्वापथस्पते रथन्न वाचसादये धिरे पोषन्न युध्महे पथस्पथः परिपतिम् वचस्या कामेन कृतो अभ्यानकर्कम् सारासत्सुधश्चन्द्राग्राधिजम् धिजगम् सेशधा धिप्रभूषा क्षेत्रस्य पति नावजगुम् भजयामसि रामश्वम्नो मृडा दीदृशे क्षेत्रस्य पदे मधुमन्दमोर्म्यन्ध्यनुरिपपजो अस्मासु धुक्ष्मा मधुस्तुतम् घृतमिव सुपोतमृतस्य नः पतयो मृडगम् तु अग्ने नगसुपथारादे अस्मान् जिस्वानि देवभजुनानि विद्वान् यो ध्यस्मत्युः राणमे नो भूयिष्ठान् दे मुक्तिम् विधेम आदेवानामपि पन्थामगन्मयच्छक्रवामलुप्रवोढुम् अग्निरुद्वान् सजजात्सेहो तासो तरान् सर्वोन् कल्पयानि यद्वाहिष्ठम् महिषेव त्वद्रजस्त्वद्वाजाबुजीरवे अज्ञा त्वम् अस्मान यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वाश्च पुच्छे बहुलानपूर्वे भवादो कायतनजादशं योः ममाज्ञयामृत वा असि देव आमध्येष्वा त्वय्यज्ञेष्वेयः यद्वो भजम्बिनामव्रतानि भा विदुषाम् देवाविदुष्टरा सह अग्नेष्टद्विश्वमाप्रणादि विद्वान् देवागम् ऋतुभिः कल्पयामहि